त्वय्यानन्दशरस्वति समरसतामेत्यनाथ तः परिहरतु सकृदि येदाधीनं महानर्थं एतं मम न त्विदमिति रागद्वेषादिनिगडदृढ भवण्मयतैक्य परशुहु परशुः पतत्वः गलतु विकल्प कलङ्कावली समुल्लसतु सा हृदिन् रागादिमय भवाण्डकलुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः आप्याययतु रसयै मां प्रवृद्धपक्षो था भवामि खगः त्वच्चरणभावनामृत रसारा रसा स्वाद नैपुणं लभता चेत्तमिदं निःशेषित विषयविषासङ्ग भक्ति तपनदीधिति संस्पर्शवशान्मयिष दूरतरम् चेतो मणिर्विमुञ्चतु रागादिकतप्तवन्निकणा तस्मिन् पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः हरिहर्यश्वविरिञ्च अपि यत्र बहिः प्रतीक्षणते अक्तिमदजनितविभ्रमवशेन् पश्येयमविकलं करणैः शिवमयमखिलम् मामकमनोगृहीत त्वद्भक्तिकुलाङ्गनाणि मादिसुतान् श्रुत्वा सुबद्धमूला ममे